श्रीहरये नमः अथ अष्टाशीतिदमोऽध्यायः राजोवाच देवासुरमनुष्येषु ये भजन्त्यशिवं देवा शिवं, शिवं प्रायस्ते दनिनो भोजा न तु लक्ष्म्याः हरिं ये गेतितुमिच्छाम सन्त होत्र विरुद्धशीलयो प्रभ्वोर्लुरुद्धा भजतां गति हें श्रीशुक उवाचा शिवशक्तियुतः शश्वत् त्रिलिङ्गो गुणसंवृतः वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रधा ततो विकारा अभवन् षोटसामीष कञ्चन उपधावन् विभूतिनां सर्वासाम् अश्नुते हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः स सर्वदृक् उभद्रष्टा तं भवेत् निर्वृत्ते स्वस्व मे देशो राजायुष्मत्पितामहः शृण्वन् भगवतो धर्मान् अपृच्छत् इदमच्युतम् स आह भगवान् तस्मै प्रीतः शुश्रूषवे प्रभुः नृणां निःश्रेयशार्थाय योपतीर्णो यधोकुले श्रीभगवानुवाच यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः ततो धनं त्यजन्त्यस्य स्वजना दुःखदुःखितं स यथा विततोद्योगो निर्विण्नश्याद्धनेहया कृतमैत्रस्य करिष्ये मदनुग्रहम् तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सधनन्तकम् अधो मां सुतोराराध्यं हि त्वा यान् भजते जनः ततस्त आसुतोषेभ्यो लप्तराज्य श्रियोद्धताः मत्ताः विस्मरन्त्यवजानते श्रीसुक शापप्रसादयोरीश ब्रह्मविष्णुशिवादयः सत्यशापप्रसादोऽग शिवो ब्रह्मा न अच्युतः अत्र चोदाहरन्तीम् इतिहासं पुरातनं वृकाशुराय गिरिशो वरं धत्वाप सङ्कटं सकुनेः पति नारदं दृष्ट्वा सुदोषम् पप्रश्च देवेषु त्रिषु धुर्मतिः स आकदेवं गिरिश मुभातावासु सिध्यसे योल्भाभ्यां गुणदोषाभ्याम् आसुतुष्यति कुप्यते दशास्य बाणयोस्तुष्ट स्तुवतोनोरिव ऐश्वर्यमतुलं दत्वा तत आपसु सङ्कटम् इद्याधिष्ठस्तमसुर उपाधावत् स्वगात्रतः के धार आत्मक्रव्येण जुह्वानोग्निमुखं हरं केवोपलब्धिम् प्राप्य निर्वेदात् सप्तमेहनी शिरोवृच्छत्स्वदितिना तत्तीर्थक्लिन्दमूर्धजम् तथा महाकारुणिकस्स धूर्झटिर्यथा वयं शाक् निरिवोतितो नलात् निगृह्य दोर्भ्याम्बुजयोर्न्यवारय तत्स्पर्शनाद्भूय उपस्कृता मागशाङ्घालमलं वृष्णिष्वमे यदा विकामम् वितरामि ते वरम् प्रिये येन नृणां प्रपद्यताम् अहो आत्मा प्रर्ध्यते व्रता देवं सव्रे पापीयान् वरं भूतभयावहं यस्य यस्य करं सेष्णे दास्ये समृयातामिति तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ओमितिः प्रगस्तं तस्मै तदेहेरमृतं यथा इत्युक्तसोऽशुरो नूनं गौरीकरणलालसः स तद्वरपरीक्षार्थं शम्भोर्मोर्नि किलाशुरः स्वहस्तम् धातुमारेभे शोभिभ्यत् स्वकृताश्चिवः तेनोपसृष्टसन्त्रस्त पराधावन् स वेपतुः अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः ततो वैकुण्ठमगमत् भास्वरं तमसः परं यत्र नारायणः साक्षान् न्यासीनां परमागतिः शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः सन्तताव्यसनं दृष्ट्वा भगवान् वृजिनार्दनः दूरात् प्रत्युदयाद्भूत्वा वटुको योगमायया मेघलाजिनदण्डाक्षयेस्तेजसाग्निरिव उज्ज्वलन् अभिवातयामासचतं कुशपाणिर्विनीतवत् श्रीभगवानुवाच साकुनेय भवान् व्यक्तं शान्तः दूरमागतः क्षणं विश्रं यथां आत्मायं सर्वकामधु यदि न श्रवणायालं युष्मद्व्यवसितं विभो पण्यतां प्रायशः पुम्भेर्धृतये स्वार्थान् समीहते श्रीशुक एवं भगवता पृष्ठो वचसामृतवर्षिणा गतक्लमो ब्रवीतस्मै यथा पूर्वमनुष्ठितं श्रीभगवानुवाच एवं चेत्तर्हि तद्वाक्यं न वयं शब्दधीमहे यो यदेवस्तत्र विश्रम्भो दानवेन्द्रजगद्गुरो तर्ह्यङ्गाशु स्वशिरसे हस्तं न्यस्य प्रतीयथा यत्य सत्यं वचः शम्भो धदैनं जह्यसद्वासं नयत्वत्तान् रथं पुनः इत्थं भगवतश्चित्रैर्वचोभिश्च सुपेशलैः भिन्नधीर्विस्मृतशीर्ष्णे स्वहस्तं कुमतेर्व्यधात् अथापतत् भिन्नशिरा वज्राहतयिवक्षणात् जयशब्दो नमः शब्दः साधुशब्दो भवद्दिवे मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे देवर्षि पितृगन्धर्व मोचितः शङ्कटाचिवः मुक्तं गिरिसमभ्याह भगवान् पुरुषोत्तमः अहो महादेव पापोयं स्वेन पाप्मनां हथः को नु महत् स्वी स जन्तुर्वै कृत किल्बिषः क्षेमीष्यात्किमो विश्वेशे कृतागस् गो जगद्गुरौ य एवम् परस्य साक्षात् परमात्मनो गिरिद्रमोक्षं कथय शृणोति वा विमोच्यते संश्रुतिभित्तधारिभिः इति श्रीमद्भागवते महापुराणे दशमस्तन्ते उत्तरार्धे रुद्रमोक्षणं नाम अष्टाशीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द